श्रीनारायण उवाच इति विष्णुकृतं स्तोत्रं प्रातरुत्थायः पठेत् पापानि तस्य नश्यन्ति दुःस्वप्नः सत्फलप्रदः भक्तिर्भवति गोविन्दे पुत्रपौत्रविवर्धिनी अकीर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्धते चिरम् उपविष्टस्ततो विष्णुः श्रीकृष्णचरणाम्बुजे नामयामासतं मासं वेपमानं तदग्रतः तदा पप्रच्छीकृष्णः कोऽयं कस्मादिहागतः कस्माद् रुदति गोलोके न कश्चिद्दुःखमश्नुते गोलोकवासिनः सर्वे सदानन्दपरिप्लुता स्वप्नेऽपि नैव शृण्वन्ति दुर्वार्तां च दुरन्वयां तस्मादयं कथं विष्णो मदग्रे दुःखितस्थितः मुञ्चन्नश्रूणि नेत्राभ्यां च मुहुर्मु श्रीविष्णुरुवाच वृन्दावनकलानाथ श्रीकृष्णमुरलीधर श्रूयतामधिमासीयं दुःखं वच्मि तवाग्रतः यस्मादहमिहायातु गृहीत्वा मुं निरीश्वरं दुःखदावानलं तीव्रम् एतदीयं निराकुरु अयं त्वधिकमासोऽस्ति व्यपेतरविसङ्क्रमः मलिनोयमनर्होऽस्ति शुभकर्मणि सर्वदा न स्नानं नैव दानञ्च कर्तव्यं प्रभुवर्जिते एवं तिरस्कृतः सर्वैर्वनस्पतिलतादिभिः मासैर्द्वादशभिश्चैव कलाकाष्ठालवादिभिः अजनैर्हाजनैश्चैव स्वामी गर्वसमन्वितैः इति दुःखानलेनैव दुग्धग्धोऽयं मर्तुमुन्मुखः अन्यैर्दयालुभिः पश्चात् प्रेरितो मामुपागतः शरणार्थी हृषि केश वेपमानो रुदन्मुहु सर्वं निवेदयामासंवृतम् एतदीयं महद्दुःखम् अनिवार्यं भवद्वृतिम् अतस्त्वावाश्रितो नूनं करे कृत्वा निराश्रयं परदुःखा सहिष्णुस्त्वम् इति वेदविदो विदो विदु अतैनं निरातङ्कं सानन्दं कृपया कुरु त्वदीयचरणां भोजं गतो नैवावशोचते इति विदो वाक्यं भाविमिथ्या कथं प्रभो भाविमिथ्या कथं प्रभो मदर्थमपि कर्तव्यम् एतद्दुःखनिवारणं सर्वं त्यक्त्वाहमायातु मे सफलं कुरु मुहुर्मुहुर्न वक्तव्यं कदापि प्रभुसन्निधौ वदन्त्येवं महाप्राज्ञा नित्यं नीतिविशारदा इति विज्ञाप्य भूमानं बद्धाञ्जलिपुटोहरिपुरस्तस्थौ भगवतो निरीक्षं तन्मुखाम्बुजम्